श्रीहरये नमः अथ सप्तमोऽध्यायः यत्रोद्यतक्षितिललोद्धरणाय बिब्रत् क्रौडीं तनुं सकलयज्ञमहीमनन्तः अन्तर्महार्णव उभागतमातिदैत्यं तं दंष्ट्रयात्रिमिव वज्रतो दधार जातोरुचेर जनयत् सुयमान् सुयज्ञ आहूतिसूनुरमरानदक्षिणायां लोकत्रयस्य महती महरत्यधार्तिं स्वायम्भुवेन मनुना हरिहृद्यनुक्तः जज्ञे च कर्दमगृहे द्विजदेवहुध्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ऊचेययात्मसमलं गुणशङ्कभङ्गम् अस्मिन् विधूय कपिलस्य गतिं प्रभेते अत्रेरपद्ममभिकाङ्क्षतक् आचतुष्ठो दद्धो मयाहमिति यत् यत्पादपङ्गजपरागपवित्रदेहां योगर्तिमा बुरुभयीं यतुहैहयाद्याः तप्तं तपो विवितलोकशुश्रुषया मे आदौ सनात्स्व तपसः सतुः सनोऽभूत् सतुः सनोऽभूत् प्राकल्पसंलप्प धर्म से दक्षुित मूर्ति नारायणो नरयी स्वधभ प्रभाव दृष्ट्वात्म भगवत नियम द धना घटितुं न कामं दहन्ति कृतिनो ननु रोषं दहन्तमुदनेन दहत्यसह्यं सोऽयं यतन्तरमलं प्रविशन् बिभेति कामः नु पुनरस्य मनश्रयेत विद्ध पद्युधितपत्रिभिरन्ति राज्ञो बालोऽपि सन्तु भगतस्तपसेवनानि तस्मात् अधातृपगतिं गृणते प्रसन्नो दिव्या स्तुवन्ति मुनयो यदुपर्यधस्तात् यत्त्वेन मुत्पदगतं द्विजिवाक्यवज्रन् विप्लुष्टपौरुषभगं निरये पतन्तम् त्रात्वार्तितो जगति पुत्रपदं च लेभे दुक्ता वसूनिवसुधासकलानियेन नपो रसा वृषभ आस सुधेवि सूनुः यो हयचीरशाधो साक्षात् स यज्ञपुरुषस्तपनीयवर्णः छन्दोमयो मगमयो किल देवधात्मा वाचो बभूबुरुसतिः स्वदोष्य नस्तः मत्स्यो युगान्तसमये मनुनो बलब्धः शोणीमयो निखिलजीवनिकायकेतः विश्रंसि तन्नुरुभये सलिले मुखान्मे आधाय तत्र विजहारहवेदमार्घान् क्षीरो उन्मत्तनामृतलब्धय आदिदेवः पृष्ठेन कच्छपभवोर्विदधारगोत्रं नेत्राक्षणो त्रिपरिवर्तकशानघण्डोः <laughs> त्रैविष्टपूरुपयः सा स नृसिंहरूपं कृत्वा भ्रमत्प्रकुटिधंष्ट कराळवक्त्रं दैत्येन्द्रमासु गदया ऊरौ निपात्यभिधतार नखैः स्फुरन्तम् अन्तःसरस्युरुभलेन पदे गृहीतो ग्राहेण यूतपतिरम्बुजहस्त आर्तः आहेदमादिपुरुषा किल लोकनाथ श्रुत्वा हरिस्तमरणार्तितनम् चक्रायुतपदकरजा भुजाधिरूढः चक्रेण नक्रवदनं विनिपाट्य तस्मात् हस्ते भ्रगृह्य भगवान् कृपयोज्झहार ध्यायान् गुणरैव रजोऽप्यधितेः सुधानान् लोकान् विचक्रम इमान् यतधायज्ञः क्ष्मां वामनेन जगृहे त्रिपदश्चलेन याज्ञामृते परिचरन् प्रभुभिर्न चाल्यः नार्तो बले अयमुरुक्रमबाधशौचम् आपश्शिकादृतवतो विबुधातिपद्यं यो वै प्रतिश्रुतं मृतेन चिकीर्षधन्यत् आत्मानमङ्गशिरसा तुभ्यं च नारदभृशं भगवान् विवृद्ध भावेन साधुपरितुष्ट उवाच योगं ज्ञानं च भागवदमात्मसतत्वदीपं यद्वासुदेवशरणा विदुरजसैव चक्रं च दिष्वभितं दश सुस्वतेजो मन्वन्तरेषु मनुभं दुष्टे सुराजसुधमं व्यदधात् स्वकीर्तिं सत्येत्र पृष्ठभुशतीं प्रथयश्चरित्रैः धन्वन्तरिश्च भगवान् स्वयमेव कीर्ते पुरुरुजाम् नृणां पुरुरुसुहन्त्ये यज्ञे च भागमम् रुधायुरवावरुन्ध आयुश्च वेदानुशास्त्यवतीर्यलेखे क्षत्रं शयाय विधि नो भृतं महात्मान् ब्रह्मदृक् नरकार्तिलिप्सु होम् उद्दन्ध्यसौवा अवनिकण्टकमुग्रवीर्यः त्रिसप्तकृत्व उरुधार परस्वधेन अस्मत्प्रसाद सुमुखकलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेश तिष्ठन् सदयितानुज आविवेश यस्मिन् यस्मा अधात् उदधिरोटभयाङ्गवेपो मार्गं शबत्यरिपुरं हरवद्दितक्षोः दूरे सुहृद्मदितरोषु शोणदृष्ट्या तादप्यमानमकरो रघनक्रचक्रः वक्षस्थलस्पर्श धैर्विडम्बिकगुप्जुष ऊढहासं सद्योषु पिशक विनेष्यति धार हर्तु भूमे सुरेतरवरुधूतविमर्दिधायः क्लेशव्ययाय कलया सितः कृष्णकेशः जनानुपलक्ष्यमार्गः कर्माणि चात्मकिमो भनिबन्धनानि तोकेन जीवकरणं यदुलौकिकायां त्रैमासिकस्य च पधा सकटोपवृद्धः यद्वृङ्गदान्तरगतेन उन्मूलनं द्वितरदार्जुनयोर्नभाव्यं यद्वै व्रजे व्रज यपीतान् लांस्तव जीवयत्तनुग्रगदृष्टिवृष्ट्यां तत् शुद्धयेति विषवीर्य विलोलजिह्वम् उच्चाटयिष्यद्दुरखम् विकरन् हृदिन्यां तत्कर्म दिव्यमिव यन्निसिनिःशयानं दावाग्निना सुचीवने परिदह्यमाने उन्निष्यति नेत्रे नेत्रेभिधाय शबलो नदि गम्य वीर्यः गृह्णीत यद्यदुभन्तं ममुष्यमाता सुल्भं सुतस्य न तु तत् ददमुष्यमाति यजृम्भतोऽस्य वदने भुवना तिगोऽपि संवीक्षसङ्कितमना प्रदिभोतितासीत् नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशात् गोपान् बिलेषु पिहितान्मयसूनुना च अह्वावृतं निशिशयानमतिश्रमेण लोकं विकुण्ठमुपनेष्यधि गोकुलं स्म गोपैर्महे प्रतिहते व्रज देवे विवर्षति पशून् कृपया रिरक्षुः तर्दोच्चिलीन्द्रमेव सप्त वर्षो महीद्रम्मनकैककरे सलीलं क्रीडन् वने निशिनिशाकर रश्मिघौर्यां रसोन्नमुखकलबधायतमूर्च्छितेन उद्दीपितस्मररुजां व्रजभृद्वधूनां हर्तुर्हरिष्यति शिरोधनधानुघस्य ये चे प्रलम्बकरधर्धुरके स्यरिष्टान् मल्लेबकंसयवना कुजपौण्ड्रघाद्याः अन्ये च साल्वकबिभल्लवदन्तवक्त्रान् सप्तोषसम्भरविथूरथरुक्मिमुख्याः यो वामृते समितिशालिन आथचापाः काम्भोजमत्स्य कुरु कैकयसृञ्जयाध्याः यास्यन्त्यदर्शनमलम् भल पार्थभीम व्याजाह्वयेन हरिणानि लयम् त्वदीयम् कालेन मीलित धियाम् अवमृष्य नृणाम् तोकायुषां आविर्हितस्वनु युगं स हि सत्यवद्यां वेदत्रुमं विटपसो विभजिष्यति स्म देवद्विषां निकमवर्त्मनि निष्ठितानां भूर्भिर्मयेन विहिताभिरदृश्यधूर्भिहे लोकान्ग्नदां मतिविमोखमधिप्रलोभं वेषं विदाय बहुभाष्यत औभधर्म्यम् हर्ह्यालयेष्वपि सतां न हरे कथा स्युः द्विजर्जना वृषला स्वाहा स्वतावषडिति स्म गिरो शास्ता भविष्यति कलेर्भगवान् युगान्ते सर्गे ऋषयो नवये प्रजेशाः तानेच च धर्ममकमन्वमरावनीषाः अन्ते त्वधर्म हरमन्यो वसाश्रुराध्या मायाविभूतय इमा पुरुषक्तिभाजहा विष्णोर्नु यः पार्थिवान्यभिकवेर्विभमे रजांस्ये सस्कम्बयः स्वरं हसास्कलता त्रिभ्रष्टं यस्मातृसां यसधनात्तुरुकम्पयानं नान्दं विधां यह ममीमुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतो परेयेम् गायन् गुणान् दशसधानन आदिदेवः शेषोऽधुनापि समवस्यति नास्य भारं येषां स एव भगवान् दयये धनन्तः सर्वात्मना श्रितपधो यति निर्व्यलीकं दे दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिदि स्वश्रुगालभक्ष्ये वेदाहमङ्गपरमस्य कियोगमायां यूयं भवश्च भगवान तदैत्यवर्यहा पद्मीमनोस च मनुष्य तदात्मजाश्च प्राचीनबर्हिर्ृभुरङ्गबुधध्रुवश्च इक्ष्वाकुरैलमुचुकुन्तविदेहघाति रक्वम्भरीषसकरा गयनाकुशाध्याः मान्दात्रलर्कसदधन्वनुरन्ति देवा देवव्रतो बलिरमूर्तरयो दिलीभः सारस्वधोद्धव परासरभूरिषेणाः येन्े वि हनू मधुभेन्द्र द पार्थार्ष्टिर्षेण विदुरस्तु दधेववर्याः देवै वितन्ति अतितरन्ति च देवमायाम् स्त्रीशूद्रगुणसरा जीवाः जीवा यदुतक्रम पारणशीलशिषा तैयना अभी कि मुश्रुतधारणा ये सस्वत् प्रशान्तमभयम् प्रदिभोतमात्रम् शुद्धम् समं सदसतः परमात्मतत्त्वम् शब्दो न यत्र पुरुकारगवान् क्रियार्थो मायापरैत्यभिमुखे च विलज्जमान तद्वैपदम् भगवतः परमस्य पुंशो ब्रह्मेदि यत् विधुरजस्र सुखं विशोकं सत्यङ् नियं ययतयोऽयमकर्तहेतिं जह्युस्वराटिव निपानगनित्रमिन्द्रः सश्रेयसामभि विभुर्भगवान् यतोष्य भावस्वभावविखितस्य सतः नु विशीर्यमाणे व्योमेव तत्प्रपुरुषो न विशीर्यते जः सोऽयं ते विहितस्तात भगवान् विश्वभावनः समासेन हरेर्नान्यधन्यस्मात् सदसच्चयत् इतम् भागवतम् नाम यन्मे भगवतोधितम् सङ्ग्रहोऽयम् विभूतीनान् त्वमेतत् यथा हरो भगवति नृणां भक्तिर्भविष्यति सर्वात्मनि अकिलाधारे इति सङ्कल्प्य वर्णय मायां वर्णयतो मुष्य ईश्वरस्य अनुमोदतः शृण्वतः श्रद्धया नित्यं माययात्मान मुह्यति इति श्रीमद्भागवते महापुराणे द्वितीयस्कन्ते ब्रह्मनारतसंवाते सप्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द